श्रीमद्भागवत् महापुराणं दसंस्कन्ध सदशतितमोऽध्यायः राजोवाच भवान् हि सर्वभूतानाम् आत्मा साक्षी स्वदिग्विभो असनस्त्वत्पदां भोजं स्मरतां दर्शनं गतः सर्वचस्तदृतं कर्तुम् अस्मन्दिगोचरो भवान् यदाैकान्तभक्तान्मे नानन्त श्रीरजप्रियः को नु त्वच्चरणां भोजम् एवं विसृजयेत्पमान् निष्किञ्चनानां शान्तानां मुनिनां जत्वमात्मतः योवतिर्ययदुर्वंशेऽणां संसृतामिह यशो वितेरेतच्छान्त्यै त्रैलोक्यवृजनापहम् नमस्तुभ्यं भगवते कुंठमेधसे कृष्णायाकुण्ठमेधसे नारायणायिषयेषु देनानी तपीयुषे भूमन कतिचिद्भूमन् गृहाण्णो निवसद्विजैः समेत पादारजसा पुनिहीनं निवेकुलम् इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः वासकुर्वन् कल्याणम् मिथिलानरं योषिताम् सुतदेवोचितम् प्राप्तं स गृहां जनको यथा न त्वा मुनीं सुसंशिष्टो धुन्वन्वासो न नर्तः तृणपीठिश्वेतान् आनीतेषु उपवेश्य स स्वागतेनाभिनन्द्याघ्रिन् स भार्यो व निजे मुदा तदम्भसा महाभाग ना ना शीर स्नायुं स्नापयाश्चक्रबुद्धर्षो लब्धसर्वमनोरथ फलार्षणो क्षीरशिवामृताम्बुभि मृदासुरभ्या तुलसीकुशाम्बुजैः आराधयामास यथोपपन्नयां सपर्यासत्त्वाभिवर्धनान्धसां सतर्कयामास कुतो ममान्नभून् देहान्धकूपे पतिरस्य सङ्गमः य सर्वतीर्तात्पदपादरेण भी कृष्णेन चास्यात्मनिकेतभूसुरैः सोपवेष्टान्कृतातिथ्यान् श्रुतदेव उपस्थितः सभाय स्वजनापत्य उवाचाङ्ख्यभिमर्शनः श्रुतदे उवाच नार्जनो दर्शनं प्राप्त परं परं पूरुषः यदीहं सक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया यथा स या न पुरुषो मनसैवात्मा यां सृष्ट्वा लोकं परं नाप्नम् अन्विश्यावभाषते शृण्वतां गदतां सा दशाश्वदर्चतां ताभिवन्दतां नृणां संवदतामलन्तर्षितिभास्य बलात्मनाम् दूरस्थ हृदिस्थोप्यतिदूरस्थकर्म विक्षिप्तचेतसाम् आत्मशक्तिभिरग्राह्योऽप्यन्यत्योपेतगुणात्मनाम् नमोऽसूतेऽध्यात्मविदां परात्मने अनात्मने स्वात्मविभक्तमृत्यवे तकारणाकारणलिङ्गमीयुषे क्षमाया संवृतरुद्धतिष्टये स त्वं साधिष्वभृत्यान्न किं देव करवामहे एतदन्तो नृणां क्लेशो यद्भवानग्गोचरः शेषोकुवाच तदुक्तमित्योपाकर्णभगवान् प्रणतार्तिहा गृहीत्वा प्राणिनापाळिं प्रहसंस्तमुवाच ते भगवानुवाच ब्रह्मस्तेऽनुग्रहार्थाय सम्प्राप्तान् विशुद्धमुन्मुनिन् सञ्चरन्ति मया लोकान् पुनन्तपादरेणुभि देवाक्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः शनैः पुनन्ति कालेन तदभ्यर्हत्वमेक्षया ब्राह्मणो जन्मनाश्रेयान् सर्वेषां प्राणिनामिह तपसा विद्यया तुष्या किं मद्गलियायितः न ब्राह्मणान्वेदयितं रूपमेतच्चतुर्भुजं सर्ववेदमयो विप्र सर्वदेवमयोहम् दुष्प्रज्ञाविदित्वैवम् अवजानन्त्यसूयवः गुरुं मां विप्रमात्मानम् अर्चादा विद्यतिष्टयः चराचरमिदं विश्वं भावायै चाचहेतवः न द्रोपाळीति चेतस्याद्धत्ते विभ्रोमदीक्षया तस्माद्ब्रह्मर्षी नेतान् ब्रह्मण् मश्रद्धयार्चयम् एवं चेदर्चितोरस्म्यद्धां नान्यथा भूरिभूतिभिः श्रीशोकुवाच सा इत्थं त्रिभुणादिष्टश आराध्यैकात्मभावेन मैथिलश्चापसद्गतिम् एवं सभक्तयो राजन् भगवान् भक्तभक्तिमान् उषित्वा दृश्य सन्मार्गं पुनर्द्वारवतीमगात् ते श्रीमद्भागवते महापुराणे पारमहंस्यां सहितायां दशमस्कन्धे पुत्रार्धे श्रुतदेवानुग्रहो नाम चलचिति